हरि ओं श्रीजगदम्बिकायै नमः अत श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे षष्ठोऽध्यायः ब्रह्म उवाच इति पृष्टा मया देवी विनया वनतेन च उवाच वचनं शक्ष्णम् आद्या भगवती देवी उवाच सदैकं न भेदोऽस्ति सर्वदैव ममास्य च योऽसौ सां योषौ भेदोऽस्ति मति विभ्रमात् आवयोन्तरं सूक्ष्मं यो वैद मतिमान्हिष विमुक्त सतु संसारान्मुच्यसेनात्र संशय एकम् बेवात् देयं वैब्रह्म नित्यं सनातनं द्वैतभावं पुनर्याति काल उत्पत्सुतन् सु सुसन्यके यथा दीपस्तथा उपादे योगात् सञ्जायते द्विधा चायै वा दर्शमध्ये वा प्रतिबिम्बम् तथा वयो वेद उत्पत्तिकाले वै सर्गार्थम् प्रभवत्यज दृश्यादृश्य विभेदोऽयं द्वैविध्ये सति सर्वथा नहंस्ते न पमाचाहम् न क्लीबम् सर्गसंशये स्वर्गे सति विभेद स्यात् धिया पुनः अहं बुद्धि अहं श्री च धृति कीर्ति स्मृतिस्तथा श्रद्धा मे यथा दया लज्जा धृष्टा यथा क्षमा काति शान्ति पिपासा च निद्रा तन्द्रा जरा जरा विद्या विद्या स्वाछा शक्तिश्च शक, शक्तिश्च शक्तिरेव च वसा मज्जा न साक्षाहं दृष्टिर्वाग्नृतानुद्रा परा मध्या च पश्यन्ति नाड्योऽहम् किं नाहम् पश्य संसारे मद्वियुक्तम् किमस्ति सर्वम् एवाहमित्येवम् निश्चयम् विधि पद्मज ते सर्वे निश्चितैरूपै विहीनम् किं वदस्व मे तस्मादहम् विधे चास्मिन् सर्वेषु देवेषु नाना नाम धराह्यहम् भवामि शक्तिरूपेण करोमि च गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी वारुणी वाुणी चाथ कौबेरी नारसिंही च वासवी उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् करोमि सर्वकर्मकार्याणि निमित्तम् तम् विधाय वै जले शीतम् तथा बन्धौ उष्णम् ज्योतिर्दिवाकरे निशानाथे मा प्रभवामि यथा तथा मया त्यक्तं विजयेन स्पन्दितुम् न भवेत् जीवदात्तम् च संसारे निश्चयोऽयं ब्रूवे त्वयि अशक्त शङ्करो हन्तुं दैत्यां किल मयोजित शक्तिहीनं नरम् ब्रूते लोकश्चैवातिदुर्बलम् रुद्रहीनम् विष्णुहीनम् न वदन्ति जना शक्तिहीनं यथा सर्वे प्रवदन्ति न खलितो भीतः शान्तश्चत्ववशं गतः अशक्तः रोचते लोके नारुद्र कोऽपि कथ्यते तद्वृद्धि कारणं शक्ति यथा तं च यदा युक्ता शक्त्या कर्ता सदाखिलं तथा हरि तथा शम्भु तथेन्द्रोऽर्थ शशि सूर्यो यमत्वम् शक्तियुक्ता यदा भवेत् अन्यथा चेदशक्ता स्यात् परमाणो च धारणे तथा शेष तथा कुर्मो येन सर्वे च दिग्गजा मध्युक्ता वै समर्था च स्वानि कार्याणि पिबामि सकलम् संहरामि विभावसु पवनम् स्तम्भयाम्यद्य यदिच्छामि तथा तत्त्वानाम् चैव सर्वेषां कदापि कमलोद्भवः असताम् भावसन्देहः कर्तव्यो न कदाचन कदाचित् प्राग्भावस्यांसाभाव एव वा मत्पृण्डेषु कपालेषु घटाभावो यथा तथा अद्यात्र पृथ्वी क्व गतेति विचारणे सञ्जाता इति विद्येया अस्य परमाणवः शाश्वतम् क्षणिकम् शून्यम् नित्या नित्यम् च कर्तृकम् अहङ्काराग्निमञ्चैव सप्तभेदैर्विवक्षितम् गुवाणा च मत्तम् अहङ्कार तदुद्भव तथा सर्वाणि भूतानि रचयस्व यथा पुरा परयन्तु स्वानि धीर्ण्यानि विरच्य निवसन्तु स्वानि स्वानि च कार्याणि कुर्वन्तु दैव गृहाणे मां विजयशक्तिम् सुरूपां चार्वाचिनीम् महासरस्वतीम् नाम्ना रजगोणयुताम्बराम् श्वेताम्बरधराम् दिव्याम् दिव्यभूषणभूजिडाम् वरास न समारूढाम् क्रीडार्थम् सचारिणीम् एषा स चरि नित्यम् भविष्यतीवराङ्गना भवमंस्था सत्यलोकं सर्वं लिङ्गकोशाश्च वर्तन्ते संस्थिता काले तान् कुरु त्वं यथा पुरा कालकर्मस्वभावाख्यै कारणै सकलं जगत् स्वभाव स्वगुणैर्युक्तम् पूर्ववत्सचराचरम् या विष्णु पूजनीय च सर्वदा तत्र गुणप्रधानत्वात् अधिक सर्वतः यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् करिष्यति पृथिव्यां वै अवतारं तदा हरिः चर्य क्यो नावथान्यत्र मानुषीं वै करिष्यति जनार्दन भवष्यति महाबलः समुत्पाद्य सुरान् सर्वान् यथा सुखम् ब्रह्मणाक्षर्या वैश्य नाना यज्ञैः सदक्षिणे यजिष्यन्ति विधानेन सर्वान् वस्तु समाहिता मन्नामोच्चारणात् सर्वे मखेषु सकलेषु च सदा तृप्ता च सन्तुष्टा भविष्यद्धम् सुदाकिलः शिवश्च माननीयो वै सर्वथा यत्तमो गुणः यज्ञकार्येषु सर्वेषु पूजनीयप्रयत्नतः यदा पुनस्वराणां वै भयम् दैत्याद्भविष्यति शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहा वाराहि वैष्णवी गौरी नारसिंही सदाशिवा एता चान्याच्च कार्याणि कुरु त्वं कमलोध्वय नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा जपन् सर्वाणि कार्याणि कुरु त्वं कमलोध्वय मन्त्राणामुत्तमोयं वै तं जानीहि महामते हृदर्ये ते सदाधार्य सर्वकामार्थसिद्धये इत्युक्त्वा मां जगन्माता हरिम्प्राह शुचिता विष्णुव्रज गृहाणे मां महालक्ष्मीम् मनोहराम् सदा वक्ष स्थले भविता नात्र संशयः क्रीडार्थं त्रिमया दत्ता शक्ति सर्वार्थदा शिवा सयेयम् नवमन्तव्या माननीया च सर्वदा लक्ष्मीनारायणाख्योऽयम् योगो वैवितो मया जीवनार्थं कृता यज्ञा देवानां सर्वथा मया अविरोधेन संगेन, वर्तितव्यं त्रिभिः सदा तं च वेदा शिवस्ते देवा मद्गुणसम्भवा मान्या पूजा च सर्वेषां भविष्यन्ति न संचयः ये विभेदं करिष्यन्ति मानवः मूढ निरयं ते गमिष्यन्ति विभेदान्नात्र संशय यो हरि स सा शिव साक्षात् यः शिव स स्वयं हरि एतयोर्भेदमा तिष्ठन् नरकार्य भवेन्द्रः तथैव दृणो नेयो नात्रकार्या विचारण अपरो गुणभेदोऽसिणु विष्णो ब्रवीमिते मुख्य तत्र परमात्म विचिन्तने गौणत्वेऽपि परोख्यातो रजोगुणतमो गुणौ लक्ष्म्या सह विकारेषु नानाभेदिषु सर्वदा रजोगुणयितो भूत्वा विहरस्वानया सह वाग्बीजं कामराजं च मायाबीजं तृतीयकम् मन्त्रोऽयं त्वं रमाकान्त मद्दत्त सुपरमातर गृहीत्वा जपतम् नित्यम् विहरस्व यथा सुखम् न ते मृत्यो भयम् विष्णो न कालप्रभवम् भयम् या वदे च विहारो मे भविष्यति सुनिश्चय संहरिष्याम्यहम् सर्वम् यदा विश्वम् चराचरं भवन्तोऽपि तदा नूनम् वै लीना भविष्यथ स्मर्तव्योऽयम् सदा मन्त्र कामधो मोक्षद सभा उद्गीथेन च संयुक्तः कर्तव्यशुभमिच्छता करत्वाण्ठं वक्तव्यं वस्तव्यं यथा कामं चिन्तयन् मां सनातिनीम् इत्युक्ता वासुदेवं सा त्रिगुणा प्रकृति पुरा निर्गुणा शङ्करं देवम् अवोचदमृतं बच हरे गौरीं महाकालीं मनोहराम् कैलासं कारयित्वा च विहरस्व यथा सुखम्ेषु गौणौ सत्तरजो गुणौ व्यासनाशासम् गुणौ तपः सप्तम् तथा कर्तुं स्मरणं परमात्मनः सर्वसप्तगुणश्चान्तो गृहीतव्यसान सर्वथा त्रिगुणा सृष्टि स्थित्यन्तकारकः एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् वस्तु मात्रं तु यत् दृश्यम् संसारे त्रिगुणं हित दृश्यं च निर्गुणम् लोके न भूतम् नो भविष्यति निर्गुण परमात्मासौ न तु दृश्य कदाचन त्रिगुणः निर्गुणा समये शङ्करोत्तमा सदाहङ्कारणम् शम्भो न च कार्यम् कदाचन स गुणाः कारणत्वादय निर्गुणाः पुरुषान्ति के महत्तम् अहङ्कारो गुणाशब्दादय तथा कार्यकारणरूपेण संसरन्ते सहर्निशम् सदुद्भूत सहङ्कार तेनाहं कारणम् शिवा अहङ्कारश्च मे त्रिगुणो स प्रतिष्ठिता अहङ्कारान् महत्तत्त्वम् बुद्धि सा परिकेतिता हि कार्यम् स्यात् अहङ्कारो हि कारणम् तन्मात्राणि सहङ्कारात् उत्पद्यन्ते हि कारणम् पञ्चभूतानां तानि सर्वसमुद्भवे कर्मेन्द्रियाणि पञ्चैव पञ्चज्ञानेन्द्रियाणि च महाभूतानि पञ्चैव मनशोडशमेव च कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः परमात्मा पुमानद्यो न कार्यम् न च कारणम् एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे सङ्क्षेपेण मया प्रोक्तः तव तत्र समुद्भवः प्रयन् सद्यमानेन कार्यार्थं मम सत्व स्मर दर्शनं तुभ्यम् तस्येऽहं विषमे स्थिते स्मर्तव्यां तदा देवा परमात्मा सनातनः उभयो स्मरणादेव कार्यसिद्धिरसंशयं ब्रह्मो वाच इत्युक्ता विश्वजा दत्ता शक्ति सुसंस्कृता विषण्ण वेतलम् विशन्न वेत महालक्ष्मीम् महाकालीं शिवाय च विसर्जिताः स्थानान्तरं समासाध चेदाता पुरुषा पुरुषावयं। चिन्तयन्त स्वरूपं तत् प्रभाते परमाद्भुतं विमानं तत् समासाध्य संरूढा तत्र वैत्रय न दीपोऽसो नी च पुनर्दृष्टं विवादं वै तत्र अस्माभिर्न चान्यथा आसाद विसते विमने विमरे ताता वयं पङ्गजसन्निधौ चण वै यत्रयौ मुरारीणातौ मधुकै च भाख्यौ इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्यां संहितायाम् तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेश वर्णनम् नाम षष्ठोऽध्याय श्रीजगदम्बिकायार्पणमस्तु